मुद्गलपुराणं खण्डं सवन् विघ्नराजचरितम् अध्यायं सिक्स् विघ्नराजप्रादुर्भावं श्रीगणेशाय नमः कश्यप उवाच तदशम्भुमुखा देव विचारं दुःखसंयुताः ममासुरस्य नाशार्थम् चक्रुः सर्वे भयातुराः तत्र विष्णुर्मः बुद्धिरुवाच वाक्यमुत्तमं देवान् सर्वान् समाश्वास्य विघ्नराजं कृदि स्मरन् विष्णुरुवाच कारागारे वयं क्षिप्तास्तत्र कर्म प्रखण्डनाद् कुपोषणसमयुक्ता कृता ममा सुरेण च अधिपापं ममस्यैव राज्ये वृत्तं महेश्वराः तेन पुण्यविहीनोऽयं मरिष्यदि न संशयः सर्वसत्ताधरप्रोक्तो गणेशो वेदवादिभिः विघ्नराजश्च तेनासौ नामाभूधर्मपालकः आपद्धर्मविधानेन तदुपासनकं परं करिष्यामो विशेषेण स एनं खादयिष्यदि तत्त्वप्रकाशकसोऽपि न तत्त्वरूपधारकः तत्त्वहीनो न देवेश अत एनं वधिष्यति अदिविषयसंयुक्तो दैत्येन्द्रायिर्मोहितो भृशं ममासुरो गणेशानं त्यक्त्वा भोगपरोऽधुना अन्यच्च क्षेत्रेषु विघ्नपश्य च मूर्त यः खण्डिताः सर्वाः स्वकीया स्थापिता कलैः आदौ गणपते प्रोक्तं पूजनं स्मरणादिकं तत्कर्मसु ममे नैव खण्डितं भूमिमण्डले अधो विघ्नेश्वरश्चैनं मारयिष्यति निश्चितम् तं विशेषेण भजद देवा भावसमन्विताः विष्णोर्वचनमाकर्ण्य देवा शम्भुपुरोगमाः साधु साधु त्वया केशवं प्रिये ततो देवा गणेशानं चिन्त्य सङ्कटमुक्तये मन्त्रस्नानं प्रचकृस्ते न्यासादींश्च मनोमयान ध्यात्वा गणपतिं सर्वे पुपूजुर्मानः सैः पृथक् उपचारैरनेकैस्ते जयपुर्मन्त्रं कृदा परं युक्तास्ते पुस्तपो बहद महद सङ्गोप्यभयसंयुक्ता निराहारपरायणाः एवं वर्षशदे पूर्णे ताञ्जयौ गणनायकः भाद्रशुक्लचतुर्ध्यां तु मध्याह्ने वरदायकः तं दृष्ट्वा हर्षसंयुक्ता देवा उद्धाय सत्वरं प्रणेमुः मानसै मानसैरुपचारकैः पुनः प्रणम्य विघ्नेशं तुष्टुः करसम्पुटाः साश्रुनेत्राप्रिये देवा भक्ति भक्तिनम्रात्मकन्धराः देवेन्द्रावूचुः नमस्ते विघ्नराजाय भक्तविघ्नविदारण अभक्तेभ्यो विशेषेण विघ्नधात्रे नमो नमः गणेशाय परेशाय हेरंबाय नमो नमः चतुर्बाहुधरायैव नागे शब्ध्वजिने नमः अमेयाया प्रतार्क्याय सदा स्वानन्दवासिने ब्रह्मणां पदये तुभ्यं ब्रह्मदात्रे नमो नमः सांख्याय बोधरूपाय पुरुषाय परात्मने गणेशाय प्रकृतये त्रिगुणाय नमो नमः सृष्टे पात्रे द संहर्े प्रकाशारिणे मोहकायोकनाय नमो नाना नम नायाचालाय म्यो मायया प्रभो मोहदा विशेषण मयि काय नमो नमनाभेद ब्रह्मविघ्नयुक्तं न संशयः तत्र आनन्दयुधायैव समभावाय ते नमः सर्वभेदविहीनं यद् ब्रह्मामृतमयं परं भेदहीनेन विघ्नेन युधं शास्त्रप्रमाणदः भेदयुक्तं गणाधीश भेदहीनं त्वया परं सृष्टं त्वन्त्वमयं नाथ तयोनाथायते नमः आनन्दं परमं ब्रह्म विघ्नानां तारकम् मदं दायकं तत्त्वमेवेदि विघ्नराजनमोऽस्तु ते तं विघ्नराजराजन्तु पश्यामश्चर्मचक्षुषा धन्यावयं वयं गणाधीश तव दर्शनाद यवमुक्त्वा प्रणेमुस्थे देवाः शम्भुपुरोगमाः स तानुवाच विघ्नेशो भक्त्या स्तोत्रेण यन्द्रितः श्रीविघ्नराज उवाच वरान् ब्रूदमः येषां यान् मनसीप्सितान् दास्यामि स्तोत्र सन्तुष्टस्तपस्साध्यानशालिना भवत्कृतमिदं स्तोत्रम् सर्वसिद्धिप्रदं भवेद पठदे शृण्वदेवा वाञ्छितार्थप्रदायकं गणेशवचनं श्रुत्वा देवाकर्षसमन्विताः प्रणम्य तं पुनः प्रोचुर्हर्षगद्गदया गिरा देवाऊचुः देहि विघ्नेशनः परां तया विघ्नविहीनाश्च शान्तिं प्राप्ता सुयोगिनः ममासुरं नाथ जहि सर्वपीडाप्रदायकम् धर्मध्वम् सकरम् पूर्णम् वर्णसङ्करकारिणम् कारागारे वयम् क्षिप्ता वरदानप्रभावतः अधुनो पोषणैर्युक्ता कृतास्तेना सुरेण च एवम् तेषाम् वच श्रुत्वा विघ्न राज्यः प्रतापवान् तथेदि तानुवाचेदं करिष्यामि वचोहितं यदस्मिन्नन्तरे देवि तत्र चित्रम् बभुवः दैत्या संस्थापिताः पूर्वं रक्षार्थं ये दिवौकसां ते दृष्ट्वा चेष्टितं तेषां गणेशागमनात्मकम् गत्वा तं सर्ववृत्तान्तं मासुरादराद रक्षकाऊचुः देवैः संराधितस्तत्राय यौ विघ्नपतिप्रभो तं प्रणम्य धेधिगणनाधेन कृतं सर्वं न संशयः अधुना दैत्यनाथत्वं यत्करिष्यसि तत् कुरु तेषाम् वचनमाकर्ण्यक्रोधयुक्तो ममासुरः सर्वानाय्यवृत्तान्तम् कथयामास विस्तराद श्रुत्वा भयत् संयुक्ता बभुवुर्जातसम्भ्रमाः जगुत्स्थम् प्रणिपत्यैव वचनं स्वहितावहम् दैत्येन्द्रा ऊचुः कारागारे स्थिता देवास्थैकथम् का गणनायकः आराधितो विशेषेण वरदश्च बभूवः दैत्याय दृष्टस्तत्त्वमयो गणाधीशो न संशयः तत्त्वहीनो न दैत्येन्द्र दृश्यदे केनचित्कदा अन्तः सदेवकं तं तु हनिष्यामो न संशयः किं करिष्यति विघ्नेशस्त्वां ध्रुवं मृत्युवर्जितम् यवमुक्त्वा महादैत्याश्चक्रुर्नादं भयङ्करं देवादीनां ततः सर्वे सन्नद्धाः प्रबभूविरे एतस्मिन्नन्तरे तत्र पुनश्चित्रं बभूवः नारदो विघ्नराजं तं ययौ कर्षसमन्वितः प्रणम्यास्त तुत्य विघ्नेशं गानं चकार हर्षदः जगादतं महायोगी प्रभो जहि ममासुरं मुनिं तं विघ्नराजस्तु सामार्थं दैत्यपश्य वै समीपे प्रेषयामस स ययौ दैत्यनायकम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे सप्तमे कण्डे विघ्नराजचरिदे प्रादुर्भावो नाम षष्ठोऽध्यायः ॐ